कृति राजा च कौरव्यशूकराणां विशाम्पते अददाद् गज रत्नानां शतानि सुबहून्यथ विराटेन तु मत्स्येन बल्यर्थं हेममालिनां कुञ्जराणां सहस्रेद्वे द्वे मत्तानां समुपाहृते पांशुराष्ट्राद्वसुधानो राजा षड्विंशतिं गजान् अश्वानाञ्च सहस्रे द्वे राजन् काञ्चनमालिनाम् जवसत्त्वोपपन्नानां वयस्थानां नराधिप बलिं चकृत्स्नमादाय पांडवेभ्यो न्यवेदयत। यज्ञसेन दासीनां सहस्राणि चतुर्दश दासानामयुतञ्च सदाराणां विशाम्पते गजयुक्ता महाराजरथाः षड्विंशतिस्तथा राज्यं चकृत्स्नम् पार्थेभ्यो यज्ञार्थं वै वासुदेवोऽपि वाष्णेयो मानम् कुर्वन् किरीटिनः अददात् गजमुख्यानाम् सहस्राणि चतुर्दश आत्मा हि कृष्ण पार्थस्य कृष्णस्यात्मा धनञ्जयः यद्ब्रूयादर्जुनः कृष्णम् सर्वम् कुर्यादसंशयम् कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत् तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत् सुरभींश्चन्दनरसान् हेमकुम्भसमास्थितान् मलयाद् दर्दुराच्चैव चन्दनागुरु सञ्चयान् मणिरत्नानि भास्वन्ति काञ्चनम् सूक्ष्मवस्त्रकम् चोलपाण्ड्यावपि द्वारम् नले भाते ह्युपस्थितौ समुद्रसारं वैदूर्यं मुक्तासङ्घाम् तथैव